श्रीहरये नमः अथ त्रयोविंशोऽध्यायः मैत्रेय उवाच दृष्ट्वात्मनां प्रवयसं एकधा वैन्य आत्मवान् आत्मना वृत्तिधो धर्मभृत्सतां निष्पादिते स्वरादेशो यथर्थमिक जज्ञीवान् आत्मजेषु आत्मजाम्नस्य विरहाद्रुदतीमिव प्रजा सुबिमनः स्वेक सधारोगा तपोवन त्राप्यप्य नियमों वैकासन सुसमते आरबुक्र तपस्था स्विजय पुरा गूलब अब्भष कतिचिद्वशान् वायुभक्षस्ततः परं ग्रीष्मे पञ्चतपावीरो वर्षाश्वासारषाण्मुनिः आकण्ठमग्नशिशिर उदके स्तण्डिलेशयः तिथि सूर्यद्वाग्धान्त अचरत्तप उत्तमं तेन ग्रमानुसिद्धेन ध्वस्तकर्मा मलासयः प्राणायामै सन्निरुद्ध षड् सनन्कुमारो भगवान् यदा परम् योगं तेनैव पुरुषम् अभजत्पुरुषर्षभः भगवद्धर्मिण साधो श्रद्धयाय ततस्तधा भक्तिर्भगवद्ब्रह्मणि अनन्यविषया भवेत् तस्या नया भगवत् परिकर्म शुद्ध सत्त्वात्मनस्तधनु संस्मरणानुपूर्त्या ज्ञानविरक्तिमध भून्निसीतेन येन चिच्छेदसंशयपदं निज जीवकोशं त्यत्यजेचिनधितं वयुनेन येन तावन्न योगगदिभेर्यतिरप्रमत्तो यावद्गदाक्रज कथासो रथिं न कुर्यात् एवं स वीरप्रवरन् ्रह्मभूतो दृढं काले तत्याजस्वं कले वरं सम्बीडपायुं पार्ष्णिभ्यां वायुमुत्सारयन्सनैर्नाभ्यां गोष्ठेषु अवस्थाप्य हृधुरकण्ठशीर्षणी उत्सर्पयं स्तुतमूर्ध्नि क्रमेणावेश्यः स्पृहः वायं वायौषिधौ कायं तेजस्तेजस्य युयुजत् स्वान्याकाशे द्रवं तोये यथास्थानं विभागशः क्षितिमं भसि तत्तेजस्य वायौ नभस्यमुम् इन्द्रियेषु मनस्तानि तन्मात्रेषु यथोद्भवं भूतानि नामुन्युत्कृष्य महत्यात्मनि तं सर्वगुणविन्यासं जीवे मायामयेन्यधान् तं चानुशयमात्मस्तमसा मनुषयी भुमान् ज्ञानवैराग्यवीर्येण स्वरूपस्थो जगात् प्रभुः अर्चिर्नाम महाराज्ञे तत्पज्ञनुगता वनं सुकुमार्य तदर्हसाचयत् पद्यां स्पर्शनम् भुवः अतीव भर्तुर्व्रत शुश्रूषया चार्षदेहयात्रया नाविन्दधार्तिं परिहर्ष्यतापि श प्रेयस्करस्पर्शणमाननिर्वृतिः देहं विपन्ना किल चेतनादिकं पत्युः प्रतिव्यादयितस्य चात्मनः आलक्ष्य किञ्चिच्च विलभ्य सा सती चितामतारो ृदिजीनलाब्लुता धत्वोदकं भर्तुबुधारकर्मणः नत्वादिविस्तां श्रुतसांस्त्रिप्ररीत्य विवेशभग्निन्द्ययायति भर्तृबाधौ विलोक्यानुगतां सात्विं पृथुं वीरभरं पतिं तुडष्टुभर्वरथा देवे देवपत्न्यसहस्रसहा कुर्वत्य कुसुमासारं तस्मिन्मं धरसानुनी नदस्वरमर्दूर्येषु कृणन्ति स्म परस्परं देव्यवूच या चैवं भूभुजां पतिं सर्वात्मना पतिं भेजे यज्ञे संश्रीर्वधूरिव सैषा नूनं व्रजत्यूर्ध्वमनु वैद्यं पतिं सती पश्यतास्मान् अतीत्यार्चेर् दुर्विभाव्येन कर्मणा तेषां दुरापं किं त्वधन्यत् मर्त्यानां भगवत्पदम् भुवि लोलायुरुषो ये वै नैष्कर्म्यं सथायन्त्युथ तवञ्चितोपदात्मधृकृश्रेण महता भुवि लद्वा अपवर्ग्यं मानुष्यं विषयेषु विषज्जते मैत्रेय उवाच तु वतीष्वमरस्त्रीषु यं वा आत्मविदां दुर्यो वैन्यः प्रापाश्युताशयः इत्थं भूतानुभावोऽसौ पृथुः स भगवत्तमः कीर्तितं तस्य चरितम् उद्धामचरितस्य ते यदिदं सुमहत्पुण्यं श्रद्धया अवहितः श्रावये शृणु यात्वापि स पृथोः पतवीमियात् ब्राह्मणो ब्रह्मवर्चस्मि राजन्यो जगति पतिः वैश्यः पठन् व्युप्पति स्यात् शोद्र सत्तमतामियात् निर्दनो धनवत्तमः अस्पष्टकीर्तिसु यसा मूर्गो भवति पण्डितः इतं स्वस्त्ययनं पुंसाम् अमङ्गल्यनिवारणं दन्यं यशस्यमायुष्यं स्वर्ग्यं कलिमलापहम् धर्मार्थकौममोक्षाणां सम्यक् सिद्धिम् अभीप्सुभिः श्रद्धयै धनुश्राव्यं चतुर्णां कारणं परं विजयाभिमुखो राजा श्रुत्वयि तत्तभियाति यान् तस्मै हरन्त अग्रे राजानः पृतवेयथा मुक्तान्यसङ्घो भगवते अमलां भक्तिमद्वहन् वैन्यस्य चरितं पुण्यं शृणुया श्रावयेत् पठेत् वैचित्रवीर्याभिहितं महन्माहात्म्यसूचकम् अस्मिन् कृतमधिर्मर्द्या पार्थवीं अनुदिनमिदमातरेण शृण्वन् पृथुचरितं प्रतयन् विमुक्तसङ्गः भगवति भव सिन्धुभूतभाते स च निपुणां लभते रतिम् अनुष्यः इति श्रीमद्भागवते महापुराणे चतुर्थस्कन्धे त्रयोविंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द